श्रीहरि नमः अथ षोटसोऽध्यायः राजोवाच उक्तस्त्वया भूमण्डल आयामविशेषं यावत् आदित्यस्तपति यत्र चासौ ज्योतिषां गणैश्चन्द्रमा वा सह दृश्यते तत्रापि प्रियव्रतरथचरणपरिघाथे सप्तभिः सप्तसिन्धव उपक्लृप्ता यत एतस्या सप्तद्वीपविशेष विकल्पस्त्वया भगवन् खलु येते एते दे देवाखिलमहं मानतो लक्षणस्तश्च सर्वं विजिज्ञासामही भगवतो गुणमये स्थूलरूप आवेशितम् मनोह्यगुणे अपि शुक्ष्मतम आत्मज्योतिषे परे ब्रह्मणि भगवते वासुदेवाख्ये क्षममावेशितुं तदु हैदद्गुरो अर्हसि अनुवर्णयितुमिति ऋषिरुवाच न वै मकाराजभगवतो मायागुणविभूते काष्ठां मनसा वचसा व अधिगन्तुं मलं विबुधायुषाभे पुरुषस्तस्मात् प्रधान्येनैव भूकोलगविशेषं नामरूपमानलक्षणतो व्याख्यास्यामः यो वायं द्वीपक्कुवलय कमल नियुदयोजन विशाल सवर्तुल यहा पुष्क्रम यस्व वर्षाणी नव योजन सहस्रायानी अष्टर्मरिया येषां मत्ये गिलावृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थितः सर्वतः सौवर्णकुलगिरिराजो मेरोर्द्वीपायामसमुन्नाहः कर्णिकाभूतकुवलयकमलस्य मूर्धनी द्वात्रिंशत्सहस्रयो जन विततो मूले षोटससहस्रं तावधान्तर्भूम्यां प्रविष्ट उत्तरोत्तरे लिलावृतं नीलश्वेतशृंभवानिति त्रयो रम्यक हिरण्मयकुरूणां वर्षाणां मर्यादा गिरयः प्रगयाथ उभयदक्षरोधावधयो द्विसहस्रपृथभयेकैकशः पूर्वस्मात् पूर्वस्मात् उत्तर उत्तरो दशांशादिकांसेन दैर्घ्य एव एवं दक्षिणेन गिलावृतं निषदो हेमकूटो हिमालय इति प्रागायता यथा नीलातयो युदयो जनोत्सेधा हरिवर्ष किं पुरुषभारतानां यथा सङ्ख्यं तथैव गिलावृतम् अपरेण पूर्वेण च माल्यवद्गन्धमाधनो आनीलनिषदायतो द्विसहस्रं पप्रततो केतुमालभद्रास्वयो सीमानं विदधाते मन्दरो मेरोमन्दरस्सु पार्श्वे कुमुदयित्ययुतयो जन विस्तारोन्नाहा मेरो अवष्टं भगिरयन्त उपक्लृप्ताः चतुर्ष्वस्तेषु सूदजम्बूकदम्भ चतुर्वेदेषु सुधजम्बूगदम्भ यघ्रोतोश्चत्वारपादपप्रवराः पर्वतकेतवयि भाति सहस्रयो जनो नाहस्तावत् विटप विततयः ्रधाश्चत्वार पयोम तु षुरस मृष्टजला यतुपस्पर्शिन उभदेवगणा योगैश्वर्याणि स्वाभाविकानि भरतर्षभधारयन्ती देवबुद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वैभ्राजकं सर्वतो भद्रमिथीं ईश्वभरपरिवृढां सहसुरलललां ललामयूतपतय ला उपदेव गणेश उपगीयमानमहिमान किल विहरन्तीं मन्दरोत्सङ्ग सतयोजनो सतयोजनोत्तुङ्गदेव सूत सूतशिरशो गिरिशिखरस्थूलानि फलानि अमृतकल्पानि पतन्ति तेषां विशीर्यमाणानाम् अतिमधुरसुरभि सुगन्ती बहुळारुणान् रसोदेन अरुणो धानामनधी मन्दरगिरिशिखरान् निपतन्ति पूर्वेण लिलावृतम् उपप्लावयति यदुभजोषणाद्भवान्या अनुचरीणां पुण्यजनवधूना अवयवस्पर्श सुगन्तवातो दशयोजनं समन्तात् अनुवासयति एवं जम्बूफलानाम् अत्युच्च निपातविशीर्णानामनस्ति प्रायाणाम् इबगाय निभानां रसेन जम्बू नाम नदी मेरुमन्धर शिखरातयुतयोजनात् अवनितले निपतन्ति दक्षिणेन आत्मानं यावत् इलावृतं उपश्यन्दति तावदुपयोऽपि रोधसूर्यान् रो मृत्तिकां अनुविद्यमानां अनुविद्यमाना वाय्वर्कसंयोगविपाकेन सदा अमरलोकाभरणं जाम्बूनधं नाम भवति यदुहवावविबुधा तत्सकयुवदिभिर्मुकुटकटककटिशूद्रात्याभरणरूपेण खलु धारयन्तीं यस्तु महाकदम्बस् सुपार्श्वनिरूढो यास्तस्य कोटरेभ्यो विनिष्टुता पञ्चायामपरिणाह पञ्चमधुधारा सुपार्श्वशिखरात् पतन्योपरेण आत्मानम् इलावृतम् अनुमोदयन्ती <laughs> या ह्युपयुञ्जानानां मुखनिर्वासितो वायुः सधयोजनं सदयो जनमनुवासयति एवं कुमुदनिरूढो यक्सतवल्सो नाम स्कन्धेभ्यो नीचीनां पयोधति मधोकृतगुढान्नाद्यम्भर सय्यासनाभरणादयः सर्व एव कामदुखानधा कुमुदाघ्रात् पतन्तस्थमुत्तरेण इलाव्रतम् उपयोजयन्तीं यानुभजूषाणानां न कदाचिदपि प्रजानां वलीपलितक्लमस्वेध दौर्गन्ध्यजरामयमृत्युशीतोष्णवै वर्ण्यो वसर्गाधय तापविशेषा भवन्ति यावज्जीवं सुखं निरतिशयमेव कुरङ्घकुररकुसुम्बवैकङ्कत्रिकूट शिशिरपदङ्करुचगनिषध सिनीवासकपिलशङ्खवैधूर्यझाते हंसर्षभनागकालञ्झर नारदातयो विंशति गिरयो मेरो कर्णिकाया इव केसरभूता मूलदेशे परित उपक्लृप्ताः जठर देवकूटौ मेरुं पूर्वेण अष्टादशयोजनसहस्रम् उदगायतौ द्विसहस्रं प्रतुतङ्गौ भवतः एवम् अपरेण भव पवनपारियात्रौ दक्षिणेन कैलासं करवीरो प्रागायतामेवम् उत्तरस्त्रिशृङ्गमकरावष्टभिरेथे परिसृतोऽग्निरिव परितश्च हास्ति काञ्चनगिरेर्मेरोर्मूर्धनि भगवत आत्मयोनेर्मध्यत उपक्लुरुप्तां पुरीं तामनुपरितो लोकपालानाम् अष्टानां ययादिसंयतारूपम् या तुरीयमानेन पुरोष्टावुपक्लृप्ता इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्ते भुवनकोशवर्णनं नाम षोटसोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द सद्गुरुनाथ महराज के जय